श्रीमद्भागवतमहापुराणम् एकादशस्कन्ध अथाष्टाविंशोऽध्यायः परमार्थनिरूपणं श्रीभगवानुवाच परस्वभावकर्माणि न प्रशंसेन्न गर्हेत् विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च परस्वभावकर्माणि य प्रशंसति निन्दति स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः तैजसे निद्रया पन्ने पिण्डस्थो नष्टचेतनः मायां प्राप्नोति मृत्युं तद्वन्नानार वा तद्वन्नानार्थदिक्पुमान् किं भद्रं किं भद्रं वा द्वैतस्यावस्तु वाचोदितं तर्णितं मनसा ध्यातमेव च छायाप्रत्याहया भासा ह्यसन्तोऽप्यर्थकारिणः एवं देहादयो भावा यच्छन्त्यामृन्मृत्युतोभयम् आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभो त्रायिते त्रातिविश्वात्माह्यते हरतीश्वरः तस्मान्नशात्मनोऽन्यस्मादन्यो भावो निरूपितः निरूपितेयं त्रिविधा निर्मूला भातिरात्मने विदं गुणमयं व्यद्धि त्रिविधम् मायया कृतम् एतद्विद्वानमदितं ज्ञानविज्ञाननिपुणम् न निन्दति न च स्तो लोके चरितसूर्यवत् प्रत्यक्षेणानुमानेन निगमेनात्मसंविदाम् आद्यन्तवत्सन्ध्यात्वानुषङ्गो विचरेधिहम् उद्धौ वाच नैवात्मनो न देहस्य संसति दृष्टदृश्ययोः अनात्म स्वदुशोरीश कस्य सादुपलभ्यते आत्मा व्ययो गुणशुद्ध स्वयं ज्योतीर्णावृतः अग्निवद्धारुवदञ्चिद्देहकस्येह संस्मृतिः श्रीभगवानुवाच यावद्देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणं संसारफलमांस्तावन् अपार्थोऽप्यविवेकिनः अर्थे श विद्यमानेऽपि संस्कृतेन निवर्तते ध्यायतो विशयानस्य स्वप्ने नर्थागमो यथा यथा ह्य प्रतिबुद्धस्य प्रस्वापो बहुवनर्थभ्रे स एव प्रतिबुद्धस्य न वैमोहाय कल्पते शोकहर्षभयक्रोधलोभमोह स्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्यश्च नात्मनः देहेन्द्रियप्राणमनोभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः सूत्रं महानित्युरुधेव गीतसंसार आधावति कालतन्त्रः अमूलमेतन् बहुरूपतं मनोवचप्राणशरीरकर्म ज्ञानाशिनोपासनयासितेन छिद्वां निर्गां वितरद्य ज्ञानं विवेको निगुमस्तपश्च प्रत्यक्षमैतिहैं मतेमैतिह्यमथानुमानम् आद्यन्त्ययोरस्य यदेव केवलं कालस्य हेतुश्च तदेव मध्ये यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्यमयस्य तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य मद्वत् दिज्ञानमेतन्त्यवस्थमङ्ग गुणत्रयम् कारणकार्यकर्त्री तमन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् न यत्पुरस्तादुत यन्न पश्चान्मन्थे च यन्नाम् व्यपदेशमाद्रम् भूतम् प्रसिद्धम् च परेण यद्यन् तदेव अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एष ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् एवं सुतं ब्रह्मविवेकहेतुभि परापवादेन विशारदेन छित्त्वात्मसन्देहमुपारमेत स्वानन्दतुष्टोऽखिलकामुकेभ्य